मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायं तर्टीन् क्षेत्रक्षेत्रज्ञानयोगं श्रीगणेशाय नमः दक्ष उवाच क्षेत्रं वदमहाभागक्षेत्रज्ञं च तयोः परं सर्वगं ब्रह्म यत्प्रोक्तम् येन ज्ञानं तयोर्भवेद मुद्गल उवाच देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमञ्जसा तयोर्योगे महद्ब्रह्मस्वद उद्धानसंज्ञ भूतानि पञ्चतन्मात्राः पञ्चज्ञानेन्द्रियाणि तु कर्मेन्द्रियाणि पञ्चैव वायवः पञ्चदेवताः इन्द्रियाणां दशैवापि द्वेष इच्छा धृतिस्तथा अव्यक्तं चेतना दुःखं सुखं मोहनमेव चित्तं बुद्धिस्थूलसूक्ष्मे कारणं च तुरीयकं येतेषां योगभावे क्षेत्रं तत्कथितम्बुधैः सदैकभावरूपश्च भेदैः संवर्जितः परः क्षेत्रज्ञः क्षेत्रमास्थाय सर्वान्दर्यामिदां दधे तयोर्योगे परं ब्रह्म दृश्यादृश्यभिवर्जितम् दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापदे स्थूलसूक्ष्मसमात्माख्यैर्भावैर्मायाविशेषदः क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादराद चतुर्भेदैर्विशेषेण मोहितोऽत्यन्तमेवसः अहं देहस्वरूपाख्यो मन्यते दे सततं मुधा ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः त्रिगुणे शुभ्रमेणैव भ्रमतेहं तदस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः राजसं च ततस्तवा सात्विकस्वम्भवेत्क्रमाद ततस्तुरीयमाश्रित्य गणेशं स भजेत् परं सर्वगं पञ्चमं साध्यं ब्रह्मीभूतो भवेन्नरः इह सौख्यप्रदं यच्च कर्म जायते सदा पापरूपमयं तेन ज्ञायते न कदाचन देहभोगकरं पूर्णं शिष्णोदरपरायणं तामसं तद्विजानीहि चान्देर्नरकदं भवेद तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतं पुनारोगादिसंयुक्ता भवन्ति नीचयोनिषु काणमुकादिदोषैस्ते संयुक्ता पापचे दशः दरिद्रादिसमयुक्ता भोगैर्हिणा भवन्त्यपि पुनः पापसमाचारा भवन्ति यदि मानवाः अन्ते यमस्य गृहे ते नरकस्ताः पुनः अदस्तमो अधस्तमो गुणस्थं स्वभावं त्यक्त्वा च मानवाः धर्मार्थधृति यदन्ते दैवयोगतः विद्धिराजसगं नरा नराभुवि सकामकं सततं कर्म कुर्वन्ति भोगदं धर्म संयुताः वासनासंयुतं कर्म स्वधर्मस्थं भवेत् तदेव राजसंविद्धि नानाभावगतं परं राजसा सर्वभोगं तु भुक्त्वा पुनः पतन्त्यपि इह ये कुर्वदे तादृशं फलम् अथवा स्वल्पभावेन कृतं राजससम्भवं कर्म तेन भवन्ते तत्क्षणात् पुनः अथवा विविधास्ते योनिषु सम्भवन्त्यपि नीचोच्चासुविशेषेण जन्ममृत्युपरायणाः राजसानां प्रजानाथ नरको नैव विद्यते स्थावरं जङ्गमं श्रुत्वा भवन्दे जन्म संयुताः तत्र दुःखं सुखं नाना भुञ्जते नात्रसंशयः संशयः राजसगं सर्वं कथितं ते समासदः अधः प्रवक्ष्यामि सात्विकं कामवर्जितम् स्वधर्मस्था जनाविद्धि तत्कुर्वन्ति निरन्तरम् ब्रह्मार्पणतया यद्यद्भवति कर्मधर्मजं नानाविधं परं तत्तत्स्वात्तिकं विद्धिमानद तेन शुक्लगतिं श्रुत्य गच्छन्ति मोक्षमञ्जस अतत्सत्त्वगुणेनैव यु भवन्ति मानवाः अतः परं तुरीयं ते कथयामि समासदः रसहीनस्वभावेन चित्तं देहसमन्वितं तदा भवति चेत्तुर्यं कर्म संजायते परं नानाविधं जगत्सर्वं ब्रह्माकारं न संशयः यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेद स्तुतिनिन्दादिकं किञ्चिन्नैव तत्र प्रकीर्तितं देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितं ब्रह्मणि समभावेन वर्तदे सर्वदा स्वयम् अन्तरे सर्वभावेषु पश्यदि विश्वरूपिणं तदा तुरीयगं कर्म क्वचिद् भवति सर्वसमत्वेन यद्भवे तत्तुरीयकं कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः अन्ते स्मितामयेतेन लीनो भवति मानवः महाकारणभावेन भवेत्रिगुणचालकः अधः परमहं कर्म कैवल्यं कथयामिते ते निषेधविधिहीनं यद्भवते कर्म स्वेच्छया विद्धि पञ्चमं योगिसम्मदम् कर्ता देहो न सन्देहस्तुरीयं प्रेरकं मदम् कुतस्तत्र व्यवस्थाख्यम् तुरीयम् वरुदते परे सदुर्विधं येन सृष्टमिदं सर्वं स्वलीलया स एव करतृभावेन कारयिप्रभावतः तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारदः नरो न वैब्रह्ममया साध्यं निरन्तरं भ्रान्त्या सर्वं न सन्देहो दृश्यते मायया मयि के ब्रह्म केलदिब्रह्मचतुर्भेदमयं परम् शुभाशुभं तस्य नास्ति वृद्धा हन्तां त्यजेन्नरः अनेनानुभवेनैव शान्त्याः संवर्तते नरः रसं सर्वत्र सन्त्यज्य ब्रह्मणो रसधारकः एवं च दुर्विधे भावे स्थितं देहिस्वरूपकं देहभ्रान्तिविहीनं तत्कृत्वा सोऽकं परो भवेद् एवं क्रमेण योगीन्द्रो भवेद्योगान्नरोत्तमः कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् अथ वर्णाश्रमाचारम् शृणुसर्वसुखप्रदं येन धर्मार्थकामांश्च लभेन्मोक्षं नरोत्तमः चित्तेन्द्रियाणि वश्यानि क्षमार्जवतपांसि च शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति वेदाधारविहीनं यन्नकरोदि सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे सम्मुखता सदा शरण्यरक्षणं नित्यं प्रभुत्वं दण्डधारणं धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् सुनीत्या पालनं पञ्च कर्मयुक्तः स बाहुजः क्रयविक्रयकौनित्यं वस्तूनां भूमिकर्षणं गवां पालनकं त्रेधा कर्मयुक्तः वैश्यकः त्रिवर्णसेवनं दानं नाममन्त्रं जपेत् परम् पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात अन्ध्यजानां पुराणोक्तं कर्म विप्रमुखोद्गदं नैव शूद्रसमं चान्यदस्पर्धत्वं द्विजादिषु कृतो पवितको क्षत्रियो वैश्य एवयः वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुदो भवेद भिक्षाशनो भवेन् नित्यं गुरोराज्ञावशानुगः गायत्रीं सं जपेन् त्रिकालेषु चरोमधृक सायं प्रातश्च जुहुयात् हविर्नित्यं जितेन्द्रियः षोडशाब्धं द्वादशाब्दं ब्रह्मचर्यं चरेत् परं पञ्चयज्ञपरो नित्यं नैमित्तं स समाचरेत् कृतधारप्रजार्थं स भवेत् भवेद्गृही स्त्रीसङ्घं सम्परित्यज्य स्त्रिया युक्तो वसेद्वनम् वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् न कलोमयुतश्चैव न ग्रामेषु प्रवेशयेद कुर्यादेवं वा न प्रस्थो वायुभक्ष्याधिकं चरेद मनसाभिस्मरेन्नैव स्त्रीसङ्गं न्याससंयुगः चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः कपर्दिकाधिकं किञ्चिन्नस्पृश्येत् स कदाचन ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा साक्षिवदेहसंस्थोऽपि मौनादिदण्डधारकः अथवा दण्डहीनः स ज्ञानदण्डधरो भवेद् एवं संन्यासकं कृत्वा सदा तिष्ठेद्यदात्मवान् मुक्तिमार्गमयं शास्त्रं स्पृश्ये नान्यद्विनिष्ठितं वर्णाश्रमविहीनश्चेद्योगी पञ्चमघस्मृतः विधिनिषेधहीनश्च यथा विनायको भवेत ये दत्ते सर्वमाख्यातं स्वधर्माचरणादिकं येनैव प्राप्यते योगो नरेण ब्रह्मदायकः दक्ष उवाच धर्मार्थकाममोक्षाणां स्वरूपम् वदमानदा ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परं केचिद्धर्मं महाश्रेष्ठमर्धं कामं तु मोक्षकं परात्परं वदन्त्येव ब्रह्मभूयं तथा परे मुद्वल उवाच धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः ब्रह्मा सर्वसमानश्च स्वधर्माख्यप्रकीर्तितः अर्थसमर्थभावाख्य ईश्वलोकप्रदायकः ईश्वरान्नसमर्थोऽन्यः पश्य ब्रह्माण्डमण्डले कामो भोगात्मकः का प्रोक्तो विष्णुलोकप्रदायकः सलक्ष्मीपदिराख्यादो नानाकामप्रदः प्रभुः मोक्ति सौरात्मिका प्रोक्ता सूर्यपुरुष उच्यते शुक्लमार्गधरपूर्णसाक्षात् साक्षी विभावसु। ब्रह्मी विभावसुः ब्रह्मीभूतमयप्रोक्तस्वानन्दपूर्णयो गतः वदन्ति न परं लोकं स्वानन्दाद्वेदवादिनः अन्यच्छृणुप्रजानाथ पञ्चैते योगदायकाः योगार्थवाचकाः सर्वे तत्र वदाम्यहं योगधर्मेण योगश्च लभ्यदे मानवैः परः न योगादपरश्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते योगकामेन योगोऽयं लभ्यते लभ्यदे मायया वरणं त्यक्त्वा मोक्ष योगः प्रकीर्त्यते ब्रह्मब्रह्मणि देवे शुकधिदं नात्र संशयः तत्र योगेन योगीयो ब्रह्मीभूतः स वै धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषदः भिन्ना मायामया प्रोक्ता ब्रह्मीभूतस्तु पञ्चमः ब्रह्मणिग्ब्रह्मभूतो यो योगी एव स उच्यते न भिन्न सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधे नक्षत्रक्षत्रज्ञानयोगो नामत्रयोदशोध्यायः त्रयोदशोऽध्यायः योगगीतासु योगगीतासूपनिषत्सु सुगमासु नवमोध्यायः ॐ